मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायं टु अयोगचरितकथनं श्रीगणेशाय नमः मुद्गल उवाच अधुना शृणुदक्षत्वं निवृत्तिरूपधारिणः चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् स्वानन्दस्सकलाधारो नानाब्रह्मसु संस्थितः जगत्सु योगभावेन संयोगेन तदात्मकः स नानामाययाययुक्तो नानाभावपरायणः भावाभावादिहीनत्वाच्चोभदे नित्यमञ्जसा कल्प काले तु गदे अनंदक गोषमादे निवृत्ति मायानकार जगद्दिर्ब्रह साधम गणेशमज तद संगवना सर्वदो भक्ुग एकाक्षरविधानेन पूजयामास तं विभुं मन्त्रं जजाप सर्वेशो द्यात्वा हृदि गजाननम् दक्ष उवाच स्वसंवेद्यात्मकप्रोक्तो मन्त्र एकाक्षरो महान् अयोगगणनाथस्य प्रीदितः स कद्धं वद मुद्गल उवाच शब्दशब्दार्थसंयुक्तो शाद्दा मन्त्रो गणपदे स्मृतः स्वसंवेद्यात्मकप्राज्ञैस्सर्वशास्त्रेषु सम्मदः नामैकदेशमात्रत्वात् स एव योगवाचकः न तत्र शब्दशब्दार्थौ शाद्दा तयोर्योगादिकं कदा गदे वर्षदे तत्र प्रसन्नो गणनायकः आययौ तं वरान्दातुं निजभक्तसुखप्रदः दृष्ट्वा गजाननं दक्षप्रकृष्टः सर्वसंयुधः स्वानन्दप्रणनामाध पुपूजे भक्तिसंयुधः दक्ष उवाच स गुणो देहयेदस्य निर्गुणमस्तकं परम् तयो तयोरभेदभावेयं गजाननो निजात्मकः अयोगे सगुणं नैव निर्गुणं नैव वर्तते तयोः संयोगरूपं यन्नैव योगीन्द्रसत्तमा कथं योगे वाचकोऽ भवद सिन्धि मे संशयं पूर्णं वचसा योगभाविना मुद्गल उवाच सिद्धिर्दहमयि माया बभूवे तस्य भोविधे नानाभ्रमं परित्यज्य लीना जाधा शरीरके नानाज्ञानप्रभावन्तु त्यक्त्वा बुद्धि शिरो भवत भ्रान्तिधारकभावं सातलीना संबभूवः तयोर्योगे स्वसंवेद्यं ब्रह्मसंयोगधारकं गजाननाकृदिस्थं तद् बभूवे लीनभावदः सिद्धिबुद्धिविहीनो यमयोगे वाचको भवद गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः शब्द शब्दार्थ संयोगै स्त्रिभिर्हीनो गजाननः अयोगे शोभदे दक्ष मायाभ्यां वर्जितः सदा अधो शृणुचरित्रम् त्वं प्रकृतं शान्तिदायकं स्वसंवेद्यप्रदुष्टावगणेशं हर्षसंयुतः स सर्वस्वानन्द उवाच अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् अयोगरूपं गणनाधमाद्यं नमामि निर्मायिगमप्रमेयं न जारसं स्वेदजमण्डजं नन चोद्भिदं स्थावरजङ्गमं न अनादिमध्यान्तममोकरूपम् न मामि निर्मायिगमप्रमेयं न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न कमेवधुण्ढिं न राजसं सत्त्वतमोयुतं नवामि निर्मायिगमप्रमेयं न जागृतं स्वप्नगतं न देवं सौसुप्तकं नैव तुरीयसंस्थम् न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयं न बोधकं नैव विबोधरूपं न मोहयुक्तं न च मोहीनं न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयं न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा नः न स्वात्मकं सर्वविकारहीनं नमामि निर्मायिगमप्रमेयम् असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेदिगं तं निजात्मरूपं विविधेषु नैव नमामि निर्मायिगमप्रमेयं अनन्तरूपं न तथैकरूपं समं न तुल्यं पञ्चमं तं सदा गणेशाकृतिरूपधारं नमामि निर्मायिगमप्रमेयं न चागदं नैव गतं गणेशमयोगरूपं प्रवदन् सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिगमप्रमेयं वचोभिरारात्वदिदुं कदाचिदयोगभावान् मनसो न शक्यं कदा तमप्राप्य वदामि देवं नमामि निर्मायिगमप्रमेयं न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् अनन्तपारं गजवक्त्रधारं नमामि निर्मायिगमप्रमेयं त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तं महोदरं वाहनहीनगं तं नमामि निर्मायिगमप्रमेयम् न योगनिष्ठं न विहारयुक्तम् निजात्मनाम्नि नगरेण संस्थं निजे समुद्रेण विकारकारं नमामि निर्मायिकमप्रमेयं न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदन्तम् अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् अहं विकारेण विमोहितोऽ भ्रमन् गणेशाधिपदे महात्मन् जगत्सुनाविधब्रह्मसुप्रभो नमामि निर्मायिकमप्रमेयं समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् भ्रमामि मां रक्ष निवृत्तिदादर्नमामि निर्मायिकमप्रमेयं सुसिद्धिबुद्धिप्रदमोहयुक्तो विभज्य नानाविधमात्मरूपं चतुपदार्थेषु चरामि भ्रान्त्यां नमामि निर्मायिकमप्रमेयं सुकेलयुक्तोऽहमधो सुखे नेतरेण योगेन तदात्मना वै न शान्तिजं सौख्यमनुह्यविन्दं नमामि निर्मायिगमप्रमेयम् अनन्दभावेन विमोहितं मां रक्षस्वदे पादप्रियं गणेशनिवृत्तिकां देहि परार्थभूतां नमामि निर्मायिगमप्रमेयम् नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने नमश्च हेरम्बमहोदराय ते नमो नमो ब्रह्मपदे सुशान्तये अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव धुण्ढे दयापरम् सौम्यधुना च तारय नमो नमो विघ्नपदे नमस्ते मुद्गल उवाच एवं स्तुत्वा गणेशानां स्वानन्दप्रणनामतं भक्त्या हर्षणसंयुक्तस्तमुवाच गजाननः श्रीगणेश उवाच वरं वृणुमहाभाग सर्वं दास्यामि चेप्सिदम् माया मायिकभेदैस्त्वं दुःखितोऽसि न संशयः त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेद न मायासम्भवं दुःखं प्रलभेत् पाठदो नरः यं यम यमिच्छदितं तं वै दास्यामि स्तोत्रपाठतः दा असाध्यं साधयेन्मर्त्यश्रवणेन निजप्रदम् एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकं जगादतं प्रणम्यादौ कृत्वा परपुडं विधे स सर्वस्वानन्द उवाच यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजं सुखं नान्यं वरं भ्रान्तिं मायामेदां निवारय तथेदि तमुवाचैव गणेशोऽन्तर्दधेतदः स्वानन्दखिन्नभावेन स्वस्थाने संस्थितो भवद सस्मारायोगनाथं तं तदश्चित्रं बभूवः विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ततः स्वयं निजानन्दो नष्टस्तत्र बभूवः मायाहीनप्रभावेण योगस्तशुशुभे मुदा संयोगमाययाहीनो न ददर्श स किञ्चन स्वात्मानं वापरं मुख्यं अयोगं गणनायकं सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् येदत्सर्वं समाख्यातमयोग्यस्य चरित्रकम् अयोगे दक्षणैवास्तित्वमहं ब्रह्मशाश्वतं न गणेशस्वसंवेद्यं तेन निर्वृत्तिमाप्नुयाद यः या पढे ह्ययोगस्य चरित्रकं स भुक्त्वा सकलान्भोगानन्दे निर्वृत्तिमाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महाभुराणे नवमे खण्डे योगजरिते अयोगजरितकथनं नामद्वितीयोऽध्यायः ॐ